श्रीहरये नमः अथ तृतीयोऽध्यायः श्रीशुक उवाच अथ सर्वगुणोपेतकालपरमशोभनः यर्ह्ये वाजनजन्मर्षं सान्तर्षग्रहतारकं दिशप्रसेदुर्गकनं निर्मलोडु गणोदयं मची मङ्गलभूयष्टपुरग्रामभ्रजाकर नद्यप्रसन्नसलिला ह्रदा जलरुहश्रियः द्विजालिकुलसन्नादसभावनराजयः भववायुंसुखस्पर्शपुण्यगन्तवः शुचिः अग्नयश्च द्विजातीनां सान्तास्तत्र समिन्दत साधूनामसुरद्रुहा जायमाने जने तस्मिन्ने दुर्दुन्दुभयो दिवे जगुः विद्यादर्यस्नन्रुतो अप्सरोभिः समं तधा मुमुचुर्मुनयो देवासुमनांसि मुधान्विताः मन्दं मन्दं जलधरा अनुसागरं निसीते तमवुद्भूते जायमाने जनार्दने देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः आवीरासीत्यधा प्राचां तमद्भुतं बालकम् अम्बुजेक्षणं चतुर्भुजं शङ्खगतायुधायुधं श्रीवत्सलक्ष्मं गलसोभि कौस्तुभं पीताम्भरं शान्त्रभयोतसौभगं महार्हवैधूर्यकिरीटकुण्डलत्विषा परिष्वक्तसहस्रकुन्तलम् उद्धामकाञ्चतकङ्कणादिभिर्विरोचमानम् वसुधेव ऐषतः सविं चयोत्पुल्लं सुतं विलोक्य आनदधुन्दुभिस्तदां कृष्णावतारोत्सवसम्भ्रमो स्पृशत् बुधाद्विजेभ्यो युतमाप्लुतो गवाम् अतैनमस्थौ तव परं न स्वरोचिषा भारतशूतिकाग्रकं विरोचयन्तं कदबी प्रभाववेत् वसुधेव उवाच विदितोऽसि भवान् साक्षात् पुरुषः प्रकृतेः परः केवलानुभवानन्तस्वरूपः सर्वबुद्धिद्रे स स्वसृष्ट्वा अग्रेतृगुणात्मकं तदनु प्रविष्ट प्रविष्ट इव भाव्यसे यते में विकृता भावास्तता ते विकृतैः सह नानावीर्या पृथग्भूता विराजं जनयन्ति हे सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव <Sess> प्रागेव विद्यमानत्वात् न तेषामिह सम्भवः एवं भवान् पुत्यनुमेयलक्षणैर्ग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः अनावृतत्वात् बहिरन्तरं न ते सर्वस्य सर्वात्मन आत्मवस्तुनः <Sess> य आत्मनो सन्निति व्यवस्यते स्वयतिरेकतो बुधः विनानुवातं न च तन्मीक्षितं सव्यस्तम् उपाध तत्पुमान् त्वत्तोष्य जन्मस्थितिसंयमान् विभो वदन्त्यनीषादगुणात् विक्रयान् त्वयीश्वरे ब्रह्मणिनो विरुध्यते त्वदाश्रयत्वात् उपचर्यते गुणैः सत्वं त्रिलोकस्थितये स्वमायया बिभर्षिशुक्लं कलु वर्णमात्मनः सर्गाय रक्तं रजसाबुभृंहितं कृष्णं च वर्णं तमसा त्वमस्य लोकस्य विभोरिरक्षिषुर् गृहेऽवतीर्णोऽसि ममाकिलेश्वर राजन्यसंज्ञासुरकोटियोतपैर्निर्व्योह्यमानानि खनिष्यसे च मोघो अयं त्वसभ्यस्तव जन्मनौ गृहे श्रुत्वा ग्रजांस्तेऽ न्यवदीत् सुरेश्वर सतेवतारं पुरुषैः समर्पितं श्रुत्वा तु नैवाभिसरद्युधायुधः श्रीशुक उवाच अतैनमात्मजं वीक्ष महापुरुषलक्षणं देवकीतम् उपाधावत् कंसाद्भीता शुचिस्मिता देवक्युवाच रूपं यत्तत् प्राहु अव्यक्तं माद्यं ब्रह्मज्योतिर्निर्गुणं निर्विकारं सत्तामात्रं निर्विशेषं निरीहं सत्वं साक्षात् विष्णु अध्यात्मदीपः नष्टे लोके द्विपरार्थावसाने महाभूतेषु आदिभूतं गतेषु व्यक्ते व्यक्तं कालवेगेन ते भवानेक शिष्यते शेष संयम् कालस्तस्य ते व्यक्तबन्धो चेष्टामाकुश्चेष्टते येन विश्वम् इमेषादेर्वत्सरान्तो महीयान्तं क्षेमधाम प्रभद्ये मर्त्यो मृत्युव्यालभीतः पलायन् लोकान् सर्वान् निर्भयं नात्यगच्छत् त्वत्पादाब्जं प्राप्य यत्रुश्चयाद्य स्वस्थस्येते मृत्युरस्मात वैते सत्त्वं घोराद् उग्रसेनात्मजान्नत्रा हि त्रस्तान् रूपं चेतं पौरुषं ध्यानदिष्ण्यं मा प्रत्यक्षं मां सदृशां कृशीष्ठाः जन्मते मय्य सौभावविद्यान्मतु सूदन समुद्विजे उपसंहर विस्वात्मन् अधोरूपम् अलौकिकं शङ्खचक्रगता पद्मश्रियाजुष्टं चतुर्भुजं विश्वं यदेतत् स्वतनौ निशान्ते यथावकाशं पुरुषः परो भवान् विभर्ति सोऽयं मम गर्भगोबोत् अहो नृलोकस्य श्रीभगवानुवाच त्वमेव पूर्वसर्गे भू पृश्निस्वायम्भुवे सति तदायं सुतपा नाम प्रजापतिरकल्मषै युवां वै प्रजासर्गे यधा ततः सन्नियं गेन्द्रियग्रामं ते पाते परमं तपः वर्षभाता तपहिम घर्मकालगुणानो सहमानौ स्वासरोत विनिर्धूतमनोमलौ शीर्णपर्णान्निलाहारौ उपशान्तेन चेतसा मत्तः कामानबीप्सन्तो माधरादनमीहतुः एवं वां तप्यतोस्तीव्रं तपः परमधुष्करं दिव्यवर्षसकश्राणि द्वातसेयोर्मधात्मनोः तदा वां परितुष्टोऽहम् अमुना वपुरुषानघे तपसा श्रद्धया नित्यं भक्त्या च हृदि भाविदः प्राधुरासंवरधराट्युवयोगा कामधित्सया प्रियताम्बर इत्युक्ते मादृशो वामृतः सुतः अजुष्टग्राम्यविषयौ अनपत्यौ च दम्पती नवव्राते भवर्गं मे मोहितो मम मायया गते मयि लब्ध्वा वरं मत्सदृशं सुतं ग्राम्यान् भोगानभुञ्जातां युवां प्राप्तमनोरथो अदृष्ट्वा अन्यतमं लोके शीलौ धार्यगुणैः समम् अहंसूतो वामभवं पृश्निगर्भ इति श्रुतः तयोर्वां पुनरेवाकम् दित्यामास कश्यपात् उपेन्द्र इति विख्यातो वामनत्वाच वामनः तृतीयेऽस्मिन् भवेहं वैतेनैव वपुषा तवां जातोपूयस्तयोरेव सत्यं मे व्याहृतं दर्शितं रूपं प्राग्जन्मस्मरणाय मे नान्यतामद्भवं ज्ञानं मर्त्यलिङ्गेन जायते युवां पुत्रभावेन ब्रह्मभावेन शासकृ अत्यन्तौ कृतस्नेहौ यास्येतमद्गतिं परं श्रीशुक उवाच इत्युक्त्वाऽसीत् हरिस्तूष्णीं भगवानात्ममाययां पित्रो सम्पश्यतो सद्यो बभूव प्राकृतस् शिशुः तदस्य शौरेर्भगवत्प्रचोदितस् सुतं यथा बहिर्गन्तुमियेष तर्ह्यजाया योगमाया अजनि नन्दजायया तया हृत प्रत्ययः सर्ववृत्तिषु त्वास्तेषु पौरेष्वपि द्वारस्तु सर्वापि बृहत्कपाटाय सकीलशृङ्खलैः ता कृष्णवाके वसुदेव आगते स्वयं व्यवर्यन्त यथातमो रवेः ववर्षपर्जन्य उवांशुगर्जित शेषोऽन्वघाद्वारि निवारयन्पणैः मघो निवर्षत्य सकृत्य भयानका सता कुला नदी मार्गं दतौ सिन्दुरिपष्टियः पतेः नन्दव्रजं सौरिरुपेत्य तत्र तान् गोपान् प्रसुप्तान् उपलभ्य निद्रया सुतं यशोधाशयने निधाय तत्सुतामुपादाय पुनर्गृहानघाद् देवक्या वासुदेवातदारिकां प्रतिमुष्यपधोर्लोकम् आस्ते पूर्ववतावृतः यशोदानन्दपत्नी च जातं परमबुध्यत नतलिङ्गं परिश्रान्ता निद्रयापघतं स्मृतिः ति श्रीमद्भागवते महापुराणे दशमस्कन्ते पूर्वार्थे कृष्णजन्मनि तृतीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनात्महराजिकी जय